श्रीमद्वाल्मीकीय रामायणे किष्किन्धा काण्डम् अथ प्रथमः सर्गः सताम् पुष्करिणीम् गत्वा पद्मोत्पलझषाकुलाम् रामः सहितो विरलापाकुलेन्द्रियः तत्र दृष्ट्वैव ताम् हर्षादिन्द्रियाणि च कम्पिरे स कामवशमापन्नः सौमित्रिमिदमब्रवीत् सौमित्रे शोभते पम्पा वै दूर्य विमलोदका फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः सौमित्रे पश्य पम्पायाः कारनम् शुभदर्शनम् यत्र राजन्ति शैला वा द्रुमाः स शिखरा इव माम् तु शोकाभिसन्तप्तमाधयः पीडयन्ति वै भरतस्य च दुःखेन वैदेह्याहरणेन च शोकार्तस्यापि मे शो चित्रकानना व्यवकीर्णा बहुविधैः पैः शीतोदका शिवा नलिनैरपि सञ्छन्ना ह्यत्यर्थशुभदर्शना सर्पव्यालानुचरिता मृगद्विजसमाकुला अधिकम् द्रुमाणाम् विविधैः पुष्पैः परिस्तोमैरिवार्पितम् पुष्पभारसमृद्धानि शिखराणि समन्ततः लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः सुखानि लोऽयम् सौमित्रे कालः प्रचुरमन्मथः गन्धवान्सुरभिर्मासो पश्यरूपाणि सौमित्रे वनानाम् पुष्पशालिनाम् सृजताम् पुष्पवर्षाणि वर्षम् तोयमुचामिव प्रस्तरेषु च रम्येषु विविधाः कालनद्रुमाः वायुवेगप्रचलिताः पुष्पैरवकिरन्तिगा पतितैः पतमानैश्च पादपस्थैश्च मारुतः कुसुमैः पश्य सौमित्रे क्रीडतीव समन्ततः विक्षिपम् विविधाः मारुतश्चलितस्थानैः षट्पदैरनुगीयते मत्तकोकिलसन्नादैर्नर्तयन्निव पादपार् शैलकन्दर निष्क्रान्तः प्रगीत इव तेन विक्षिपतात्यर्थम् पवनेन समन्ततः गन्धमभ्यवहन् पुण्यम् श्रमापनयनोऽनिलः अमीपवन विक्षिप्ता विनदन्तीव पादपाः षट्पदैरण कूजद्भिर्वनेषु मधुगन्धिषु गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः संसक्त शिखरा शैला महाद्रुमैः पुष्प सञ्छन्न अमीमधुकरोत्तम् सा प्रगीता इव पादपाः सुपुष्पिताम् स्तु पश्यैतान् नानाविहगनादितः सीतया विप्रहीणस्य शोकसन्दीप मम माम् हि हृष्टम् प्रवदमानश्च समाह्वयति कोकिलः एष दात्यूहको हृष्टो रम्ये माम् वन निर्झरे प्रणदन्मन्मथाविष्टम् शोचयिष्यति लक्ष्मणा श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया मामाहूय प्रमुदिताः परमम् प्रत्यनम् दता एवम् वृक्षगुल्मलताः पश्य सम्पतन्ति समन्ततः विमिश्राविहगाः पुम्भिरात्मव्यूहाभिनन्दिताः भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः अस्याः कूले प्रमुदिताः सङ्घशकुनास्त्हा दात्युहरति विक्रन्दैः पुंस्को किल ऋतैरपि स्वनन् त्रिपादपाश्चेमे ममानङ्गप्रदीपकाः अशोकस्तबकाङ्गारः षट्पदस्वननिः स्वनः माम् हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति रहिताम् अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम् अयम् हि रुचिरस्तस्याः कालो रुचिरकाननः कोकिलाकुलसीमान्तो दयितायाममानघा मन्मथाया स सम्भूतो वसन्तगुणवर्धितः वसंत माम् धक्ष्यति क्षिप्रम् शोकाग्निर्नचिरादिव अपश्यतस्ताम् वनिताम् पश्यतो रुचिरान् द्रुमान् ममायमात्मप्रभवो भूयस्त्वमुपयास्यति अदृश्यमाणा वैदेही शोकम् वर्धयतीह दृश्यमाणो वसन्तश्च स्वेदसंसर्गदूषकः माम् हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम् सन्तापयति सौमित्रे पवनोद्धूतैर्गवाक्षैः स्फाटिकैरिव शिखिनीभिः परिवृतास्त एते मदमूर्च्छिताः मन्मथाभिपरीतस्य मम मन्मथवर्धनाः पश्य लक्ष्मणनृत्यन्तम् मयूरमुपनृत्यति शिखिनी मन्मथार्तैषा भर्तारम् गिरिसानुनी तामेव मनसा रामाम् मयूरोऽप्यनुधावति पक्षौ रुतैरुपहसन्निव मयूर से वने नूनं नृता प्रिया तस् नृत्यतिरम्यु वनु सह का मम विनासहुष्पे सु दुस्सह पश्य लक्ष्मण संाग स्त्रीय निगते यदेशा शिखिनी काम भर्तावर्तते में विशालाी जानक जात मदनेवर्तेत यदि नापहृता भवत पश्यलक्ष्मणपुष् निष्फला मे पुष्पा वना शिशिराए रुचिराण्य पुष्पा पादनाश्रििया निष्फला महीया मधुकत्त्क नदी कामं शकुना मुदिता संगश कल आह्वयन्त इवान्योन्यम् कामोन्मादकरा ममा वसन्तो यदि तत्रापि यत्र मे वसति प्रिया नूनम् परवशासीता सापि शोचत्यहम् यथा नूनम् न तु वसन्तस्तम् देशम् स्पृशति यत्र सा कथम् ह्यसितपद्माक्षी वर्तयेत्सा मया विना अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया किम् करिष्यति शुश्रोणी सा तु निर्भर्त्सिता परैः श्यामा पद्मपलाशाक्षी मृदुभाषा प्रिया नूनम् वसन्तमासाद्य परित्यक्ष्यति जीवितम् दृढम् हि हृदये बुद्धिर्मम सम्परिवर्तते नालम् वर्तयितुम् सीता साध्वी मद्विरहम् मयि भावो हि वैदेह्यास्तत्वतो विनिवेशितः ममापि भावः सीतायाम् सर्वथा विनिवेशितः एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः ताम् विचिन्तयतः पावकप्रतिमो मम सदा सुखमहम् मन्येयम् पुरा सह सीतया विना सीताम् शोकसञ्जननो मम ताम् विनाथ विहङ्गोऽसौ पक्षी प्रणवितस्तदा वायसः पादपगतः प्रहृष्टमभिकूजति एष वैतत्र वैदेह्या विहगः प्रतिहारकः पक्षी माम् तु समीपमुपनेष्यति पश्य लक्ष्मणसन्नादम् वने मदविवर्धनम् पुष्पिताग्रेषु वृक्षेषु द्विजा नामवकूजता विक्षिप्ताम् षट्पदः सहसाभ्येति मदोद्धूतामिव प्रिया कामिनामयमत्यन्तमशोकः शोकवर्धनः स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव माम् स्थितः कुसुमशालिनः विभ्रमोत्सिक्तमनसः साङ्गरागानरा किन्नरा नर शादूल विचरते यत इ शुभगंधी पश्य लक्ष्मणसर्वश नलिना प्रकाशंते जले तरण सूर्यत प्रसन्न सलिला पद्मनीलोत्पलायुता हंसकारकर्ण पंपंधि काुता जले तरुण सूरिया पंकज शोभते पंप समंतादृता चक्रवाकुता निचि प्रस्थवनागयूथ शोभते सलि पवनाहत वेगा पंकजाज्य लक्ष्मण पद्मपत्रविशालाक्षीम् सततम् प्रियपङ्कजा अपश्यतो मे वैदेहीम् जीवितम् नाभिरोचते अहो कामस्य भावत्वम् योगतामपि दुर्लभाम् स्मारयिष्यति कल्याणीम् कल्याणतरवादिनीम् शक्यो धारयितुम् कामो भवेदभ्यागतो मया यदि भूयो वसन्तो माम् न यानि स्मरणणीयानि तया सह भवन्ति मे तान्येवारमणीयानि जायन्ते मे तया विना पद्मकोशपलाशानि द्रष्टुम् दृष्टिर्हि मन्यते सीताया नेत्रकोशाभ्याम् सदृशानीति लक्ष्मण पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः निःश्वास इव सीताया वाति वायुर्मनोहरः सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुषु पुष्पिताम् कर्णिकारस्य यष्टिम् परमशोभिता अधिकम् शैलराजोऽयम् धातुभिस्तु विभूषितः विचित्रम् सृजते रेणुम् वायुवेगविघट्टितम् गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्रपुष्पितैः निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता पम्पातीररुहाश्चेमे संसिक्ता मधुगन्धिनः मालती मल्लिका पद्मकरवीराश्च पुष्पिताः केतक्यस्यन्दुबाराश्च वासन्त्यश्च सुपुष्पिताः माधव्यो गन्धपूर्णाश्च सर्वशः चिरिबिल्वा मधूकाश्च मञ्जुलावकुलास्तथा पद्मकाश्चैव शोभन्ते नीलाशोकाश्च पुष्पिताः लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः चूताः पाटलयश्चापि कोविदाराश्च पुष्पिताः मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु केतकोद्दालकाश्चैव शिरीषाः शिंसपाधवाः शाल्मल्यकिंशुकाश्चैव रक्ताः कुरवकास्तथा तिलिशानक्तमालाश्च चन्दना स्यन्दनास्तथा पुष्पिताः पुष्पितान् पुष्पिताग्राभिर्लताभिः पश्केह सौमित्रे द्रुमा पश्येह सौ पंपायाुचिरान्बूर्वात विक्षिप्तान्य सन्ना सामंते मता इव वर स्त्रि पादा पादपंगनावन पाद पाद वातिकसास्वादितवाल केचिपरियाकुसुम पादमधुंधि केचिन्मुकुल संवीता श्याम वर्णा इवा बभुः इदम् रागरक्तो मधुकरः कुसुमेश्वलीयते निलीय पुनरुत्पत्त्य सहसान्यत्र गच्छति मधुलुब्धो मधुकरः पम्पातीरद्रुमेश्वसौ इयम् कुसुम सङ्घातैरुपस्तीर्णा सुखा कृता स्वयम् निपतितैर्भूमिः शयनप्रस्तरैरिव विविधा विविधैः पुष्पैस्तैरेव नगसानुषु विस्तीर्णाः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः हिमान्ते पश्य सौमित्रे वृक्षाणाम् पुष्पसम्भवम् पुष्पमासे हितरवः सङ्घर्षादिव पुष्पिताः आह्वयम् त इवान्योन्यम् कुसुमोत्तम् स विटपाः शोभम् ते बहुलक्ष्मण एष कारण्डवः पक्षी विगाह्य सलिलम् शुभम् रमते कान्तयासार्धम् काममुद्दीपयन्निव मन्दाकिन्यास्तु यदिदम् रूपमेतन्मनोरमम् स्थाने जगति विख्याता गुणास्तस्या मनोरमाः यदि दृश्येत स्पृहयेयम् न शक्राय नायोऽध्यायै रघूत्तमा न ह्येवम् रमणीयेषु शाद्वलेषु तया सह रमतो भवेत् चिन्ता न स्पृहान्येषु वा भवेत् अमीः विविधैः पुष्पैस्तरवो विविधच्छदाः काननेऽस्मिन् विना चिन्तामुत्पादयन्ति मे पश्य शीतजलाम् सौमित्रे पुष्करायुताम् चक्रवाकानुचरिताम् कारण्डवनिषेविताम् प्लवैः क्रौञ्चैश्च सम्पूर्णाम् महामृगनिषेविताम् अधिकम् शोभते पम्पा विकुचद्भिर्विहङ्गमैः दीपयन्तीव मे कामम् विविधामुदिता द्विजाः श्यामाम् चन्द्रमुखीम् स्मृत्वा प्रियाम् पद्मनिभे क्षणाम् मृगीभिः सहितान् मृगान् माम् पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम् व्यथयन्तीव मे चित्तम् सञ्चरन्तस्ततस्ततः अस्मिन् सानुनिरम्येहि मत्तद्विजगणाकुले पश्येयम् यदि ताम् कान्ताम् ततः स्वस्ति भवेन्मम जीवेयम् खलु सौमित्रे मया सह सुमध्यमा वैदेही पम्पायाः पवनम् शुभम् पद्मसौगम्धिकवहम् शिवम् शोकविनाशनम् धन्यालक्ष्मणसेवम् ते पम्पायावनमारुतम् श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया धारयति प्राणान्विवशा जनकात्मजा किम् नु वक्ष्यामि धर्मज्ञम् राजामम् सत्यवादिनम् जनकम् पृष्टसीतम् तम् यामा मामनुगता मन्दम् पित्रा प्रस्थापितम् वनम् सीता समास्थाय क्वनुसावर्तते प्रिया तया विहीनः कृपणः कथम् लक्ष्मणधारये यामा राज्याद्भ्रष्टम् विहतचेतसं चेतसम् तर्चार्वञ्चितपद्माक्षम् सुगन्धिशुभमव्रणम् अपश्यतो स्मितःरयुतम् गुणवन्मधुरम् हितम् वैदेह्यावाक्यमतुलम् कदा श्रोष्यामि लक्ष्मणा प्राप्य दुःखम् वनेष्यामा माम् मन्मथ विकर्षितम् नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत किम् न वक्ष्याम्ययोध्यायाम् कौसल्याम् हि नृपात्मजा क्व सा स्पृशेति पृच्छन्तीम् कथम् चापि मनस्विनी गच्छ लक्ष्मणपश्य त्वम् भरतम् भ्रार्वत्सलम् न ह्यहम् शक्तस्तामृते जनकात्मजा इति रामम् महात्मानम् विलपन्तमनाथवत् उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम् संस्तम्भराम भद्रन्ते माशु पुरुषोत्तमा नेदृशानाम् मतिर्मन्दा भवत्यकलुषात्मना स्मृत्वा वियोगजम् दुःखम् त्यजः स्नेहम् प्रिये जने अतिस्नेहपरिष्वङ्गाद्वर्तिराद्रापि दह्यते यदि गच्छति पातालम् ततोऽभ्यधिकमेव वा सर्वथा रावणस्तात भविष्यति राघव प्रवृत्तिर्लभ्यताम् तावत्तस्य पापस्य रक्षसः ततो हास्यति वा सीताम् निधनम् वा गमिष्यति यदि यातिदितेर्गर्भम् रावणम् सह सीतया तत्राप्येनम् हनिष्यामि न चेद्दास्यति मैथिलीम् स्वास्थ्यम् भद्रम् भजस्वार्य त्यज्यताम् कृपणा मतिः अर्थो हि नष्टकार्यार्थैरयत्नेनाभिगम्यते उत्साहो बलवानार्यनास्युत्साहात् परम् बलम् सोत्साहस्य हि लोकेषु न किञ्चिदपि दुर्लभम् उत्साहवन्तः पुरुषानावसीदन्ति कर्मसु उत्साहमात्रमाश्रित्य प्रतिलप्स्याम जानकी एवम् सम्बोधितस्तेन शोकोपहतचेतनः त्यज्य शोकम् च मोहम् च रामो धैर्यमुपागमत् सोऽभ्यतिक्राम दव्यग्रस्तामचिन्त्यपराक्रमः रामः पम्पाम् सुरुचिराम् रम्याम् पारिप्लवद्रुमाम् निरीक्षमाणः सहसा महात्मा सर्वम् वनम् निर्झरकन्दरम् च उद्विग्न चेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे तम् मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमना महात्मा स लक्ष्मणो राघममिष्ट चैव तावृष्य समीपचारी च रन्द शाखा मृगाणामधिपस्तरस्वीभि तत्र सेनैव विचेष्ट चेष्टा स तौ महात्मा गज मन्दगामी शाखा मृगस्तत्र चरंश्चरन्तौ दृष्ट्वा विषादम् परमम् जगामचिन्ता परीतो भयभार भग्नः तमाश्रमम् पुण्य सुखम् सदैव शाखा त्रस्ता दृष्ट हरिजग्म जसौ राघव लक्ष्मण तौ इशे श्रीमद्राणे वाक आदि का्ये किन्धाडे प्रथम